उपासकानाम् यदुपासनीयम् उपातवासं वटशाखिमूले तद्रामदाक्षिण्यजुषास्वमूर्त्या जागर्तु चित्ते मम बोधरूपम् अद्राक्षमक्षीणदयानिधानम् चार्यमाद्यम् पटमूलभागे मौनेन मन्दस्मितभूषितेन महर्षिलोकस्य तमोऽनुदन्तम् विद्राविदाशेषतमोगणेन मुद्राविशेषेण मुहुर्मुनीनाम् निरस्य दयया विधत्ते ेवो महान्तत्त्वमशीति बोधम् अपारकारुण्यसुधातरङ्गैः अपाङ्गपादैरवलोकयन्तम् कठोरसंसारनिदाघतप्तान् मुनीजकं नौमि गुरुम् गुरुणा ममाद्य देवो वडमूलवासी कृपाविशेषात् कृतसन्निधानः ओङ्काररूपाम् उपदिश्य विद्याम् आविद्यकद्वान्तमपाकरोतु कलाभिरिन्दोरिव कल्पिताङ्गम् मुक्ताकला वैरिव बद्धमूर्तिम् आलोकये देशिगमप्रमेयम् अनाद्यविद्यातिविरप्रभातम् स्वदक्षजानुस्थितवामपादम् पारोदरालङ्कृतयोगपट्टम् अपस्मृतेराहितपादमङ्गे प्रणौमि देवम् प्रणिदानवन्तम् तत्त्वा त्वमन्ते वसताम् ऋषीणाम् युवापि यः सनुपदेष्टुमीष्टे प्रणौमि तम् प्राक्तन पुण्यजालैः आचार्यमाश्चर्य गुणाधिवासम् वृद्धा शिष्या गुरुर्युवा गुरोस्तु मौनं व्याख्यानम् शिष्यास्तु चिन्न संशयाः एकेन मुद्राम् परशुङ्करेण करेण चान्येन मृगम् दधानः स्वजानुभिन्यस्तकर पुरस्तात् आचार्यचूडा मणिराविरस्तु लेपवन्तम् मदनाङ्गभूत्या शार्दूलकृत्या परिधानवन्तम् आलोकये कञ्चन देशिकेन्द्रम् अज्ञानवारागरवाणवाग्निम् चारुस्मितम् सोमकलावतं वीणाधरम् व्यक्तजटा उपासते केचन योगिन स्त्वा उपासतेऽयं मुनयः शुकाद्याः निराशिशोणि मम दधिवासाः तं दक्षिणामूर्तितनु महेशम् उपास्मके मोघमरातिशान्त्यै कारुण्यामृतवारिभिर्मुनिजनम् सम्भावयन् वीक्षितैः मोहद्वान्तविभेदनम् विरचयन् बोधेन तत्तादृश देवस्तत्त्वमसीति बोधयतु माम् मुद्रावतापाणिना अगौरगात्रैः अललाट अललाटनेत्रैः अशान्तवेषैः अभुजङ्गभूषैः अबोधमुद्रैः अनपास्त्रित्रैः अपूर्णकामैः अमरैरलम् नः दैवतानि कति सन्ति चावनौ नैवतानि मनसोमतानि मे दीक्षितम् जडधियामनुग्रहे दक्षिणाभिमुखमेव दैवतम् य मुग्धशिनावतंसिने भसिता बलेप रमणीय मूर्तये जगदिन्द्रदाल रचना पठीयसे महसे नमोऽस्तु वटमूलवासिने व्यालम् विनीभिः जटाभिगी जटाभिः कलावशेषेण ेतसि निर्मलानाम् उपासकानाम् त्वमुमासहायः पूर्णे प्रकटी प्रकटीकरोषि यदद्यते दर्शनमात्रतोमे। मे द्रवत्यहो यस्ते प्रसन्ना मनुसन्त शशाङ्कमौलेः ऐश्वर्यमायुर्लभते च विद्याम् अन्ते च